नारदपुराणम् उत्तरार्थम् अध्यायम् 65 मोहिन्युवाच वनानिकानि कानि विप्रेन्द्र तत्र सन्ति शुभावहाः सरितश्चक्रमाद्यात्राम् वदमेत् सर्वसिद्धिदाम् यानि तीर्थानि त्यत्र कुरुक्षेत्रे सुपुण्यदे तानि सर्वाणि मे ब्रूहि गदिदस्त्वम् गुरुम् यदः गुरुर्यदः वसुरुवाच शृणु मोहिनि वक्ष्यामि कुरुक्षेत्रस्य पुण्यदम् यात्राविधानम् यत्कृत्वा लभदे गदिमुत्तमाम् वनानि सप्तसम्पीह कुरुक्षेत्रस्य मध्यतः तेषाम् नामानि वक्ष्यामि पुण्यदानां नृणामिह काम्यकं वनं पुण्यं तथा दिदिवनं महद व्यासस्य च वनं पुण्यं फलकीवनमेव च तथा सूर्यवनं चात्र पुण्यं मधुवनं च वै ीता वनं तथाख्यातं नृणां कल्मषनाशनम् वनान्येदानि शब्दात्र तेषु तीर्थान्यनेकशः सरस्वती नदी पुण्या तथा वैतरणी नदी गङ्गा मन्दाकिनी पुण्या तथैवान्या मधुस्रव दृशद्वदी कौशिकी च पुण्या हैरण्वदी नदी वर्षकालवहाश्चैता वर्जयित्वा सरस्वतीम् एता सामुदकम् पुण्यम् स्पर्श्ये पाने समाप्नोत्तौ रजस्वलात्वम् नैतासाम् पुण्यक्षेत्रप्रभावतः रन्तु कम् तु पुराः साध्यद्वारपालम् महाबलम् यक्षम् समभिवाद्याथ तत्र यात्राम् समारभेद तदो गच्छन्नरपुण्यम् भद्रेदिति वनम् महद अदित्या तत्र सम्यक् चीर्णम् महत्तपः तत्र स्नात्वा समभ्यर्च्य देवमादरमङ्गना सुदे पुत्रं महाशूरं सर्वलक्षणसंयुधम् ततो गच्छे ध्वरारोहे विष्णोस्थानमनुत्तमं विमलं नाम विख्यातं यत्र सन्निहितो हरिः विमले तु नरस्नात्वा दृष्ट्वा च विमलेश्वरम् विमलः स लभेल्लोकम् देवदेवस्य चक्रिणः हरिं च बलदेवम् च दृष्ट्वैकासनमास्थितौ मुच्यते किल्भिषात् सद्यो मोहिन्यत्र न संशयः ततः पारिप्लवम् गच्छेतीर्थम् लोकेषु विश्रुतम् तत्र स्नात्वा च पित्वा यो ब्राह्मणं वेदपारगम् सन्तोष्य दक्षिणाद्येन ब्राह्म यज्ञफलं लभेद यत्रास्ति सङ्गमो भद्रे कौशिक्या पापनाशनः तत्र स्नात्वा पाप्नो दिप्रियसंगमं पाप्नोतिप्रियसङ्गमम् तदस्तु पृथिवीतीर्थमासाद्य क्षान्तिमान्नरः स्नादो भक्त्या महाभागे प्राप्नोति गतिमुत्तमाम् धरम्यामपराधाये कृता स्युः पुरुषेण वै तान् सर्वान् क्षमदे देवी तत्र स्नातस्य देहिनः ततो दक्षाश्रमे पुण्ये दृष्ट्वा दक्षेश्वरम् शिवम् अश्वमेधस्य यज्ञस्य लम् प्राप्नोति मानवः तदशालकिनीं गच्छ तत्र स्नात्वा समर्चयेत् हरिं हरेण संयुक्तम् वाञ्छितार्थस्य लब्धये नागतीर्थं तदः प्राप्य स्नात्वा तत्र विधानविद सर्पिश्चास्य दधिप्राश्य नागेभ्यो भयम् लभ्येद तद सायमुपावृत्य रन्तुकम् द्वारपालकम् एकरात्रो श्रितस्तत्र पूजयेत्तम् परेहनि गन्धाद्यैरुपचारैस्तु ब्राह्मणम् प्राच्य भोजयेद तदः पञ्चनदम् गच्छेत् तीर्थम् पञ्च नादाकृदा यत्र हरेणा सुरभीषणाः तेन पञ्चनदं नाम सर्वपादकनाशनं तत्र स्नाने दानेन निर्भयो जायते नरः कोटितीर्थतदो गच्छेद्यत्र रुद्रेण मोहिनि कोटितीर्थान्युपाहृत्य साभिधा निमहात्मना तत्र नरस्नात्वा दृष्ट्वा कोडीश्वरम् हरम् पञ्चयत्नभवम् पुण्यम् तत्प्रभक्त्याप्नुयात् सदा तत्रैव वामनो देवः सर्वैर्देवैः प्रतिष्ठितः तस्मात् तम् तत्र सम्पूज्य अग्निष्टोम फलम् लभेद ततोमासाद्ये श्रद्धावान् विजितेन्द्रियः स्नात्वा तत्र यशस्वी च रूपवांश्च नरो भवेद् तदो वाराहतीर्थं च प्राप्य विष्णुप्रकल्पितम् आप्लुत्य श्रद्धया तत्र नरः सद्गतिमाप्नुयात् तदो व्रजेत् सोमतीर्थ यत्र सोमो वरानने तपस्तप्त्वा ह्यरोगो भू तत्र स्नानम् समाचरेद दत्वाच च तत्र गमेकम् राजसूयफलं लभेद भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा लिङ्गं समभ्यर्च्य न भूयो भवमाप्नुयाद एकहंसे नरस्नात्वा गोसहस्रफलं लभेद् कृतशौचे नरस्नात्वा पुण्डरीकफलं लभेद ततो मुञ्जवदं नाम प्राप्य देवस्य शूलिनः समुष्य जनिशमेकाम् प्रार्च्येष्यं गणपो भवेत् प्रसाद्य यक्षिणीं तत्र द्वारस्थामुपवास कृद स्नात्वाभ्यर्च्याश्च ये द्विप्रामः पादकशान्तये प्रदक्षिणमुपावृत्य पुष्करं च तदो व्रजेद तत्र स्नात्वापि दृन् प्रार्च्य यो नरो भवेद् कन्यादानम् च यस्तत्र कार्तिक्याम् वै समाचरेद् प्रसन्ना देवतास्तस्य यच्छन्त्यभिमदम् फलम् कपिलश्च महायक्षो द्वारपालोऽत्र संस्थितः विघ्नम् करोधि पापानाम् सुकृतम् च प्रयच्छति पत्नी तस्य महाभागा नाम नोलू नाम्नो लूखलमेखला आहत्य दुन्दुभिं साधुभ्रमदे दु नित्यमेव हि वारयेत्पापि न स्नान तथा सुकृतिनो नयेत तदो रामह्रदम् गच्छेत् स्नात्वा तत्र विधानतः देवान् पितृन् ऋषि निष्ठ्वा भुक्त्रिम् मुक्त्रिं च विन्ददि राममभ्यर्च्य सश्रद्धस्वर्णम् दत्वा धनी भवेद वंशमूलं समासाद्य श्रत्वा स्वम् वंशमुद्धरेद कायशोधनके स्नात्वा शुद्धदेहो हरिम् विषेद लोकोद्धारं तदः प्राप्य स्नात्वाभ्यर्च्य जनार्दनम् प्राप्नो दिशाश्वतम् लोकम् यत्र विष्णुः सनादनः श्रीतीर्थम् च तदः प्राप्य शालग्राममनुत्तमम् स्नात्वाभ्यर्च्य हरिम् नित्यम् पश्यति स्वान्तिकेष्टितम् कपिलाह्रदमसाध्य स्नात्वाभ्यर्च्य सुरान् पितृन् सहस्रकपिलपुण्यं लभते नात्र संशयः कपिलम् तत्र विश्वेश्यम् समभ्यर्च्य विधानदः देवैश्च सत्कृतो भद्रे साक्षात् शिवपदम् लभेत् सूर्यतीर्थे तदो भानुं सोपवासः समर्चयेद् अग्निष्टोमस्य यज्ञस्य फलं लब्ध्वा व्रजेद्दिवम् पृथिवी विवरद्वारि स्थितो गणपतिस्वयं तं दृष्ट्वा दसमभ्यर्च्य यज्ञस्य फलमाप्नुयाद देव्यास्तीर्थे नरस्नात्वा लभते रूपमुत्तमम् ब्रह्मावर्ते नरस्नात्वा ब्रह्मज्ञानमवाप्नुयाद सुतीर्थके नर देवर्षि पितृमानवान् समभ्यर्थ्याश्वमेधस्य यज्ञस्य फलमाप्नुयात् कामेश्वरस्य तीर्थे दुःस्नात्वा श्रद्धासमन्वितः सर्वव्याधिविनिर्मुक्तो ब्रह्म प्राप्नो दिशाश्वतं स्नातस्य मातृतीर्थे दुःश्रद्धयाभ्यर्थकस्य तु सप्तमम् कुलम् देवि वर्धते श्रीरनुत्तमा तदसीधावनम् गच्छे तत्र तीर्थम् महच्चुभे पुनादिदर्शनदेव पुरुषानेकविंशतिम् केषान् प्रक्षिप्य वै तत्र पूतो भवति पापदः दशाश्वमेधिकम् तत्र तीर्थम् त्रैलोक्यविश्रुतम् दर्शनाथस्य तीर्थस्य मुक्तो भवति किल्बिषैः मानुषा ख्वेम् प्राप्य स्नानम् समाचरेद यदीच्छेन्मानुषम् जन्म पुनश्च विधिनन्दिनि मानुषाच्च तदस्तीर्थात् कोशमात्रे महानदी आपगा नाम विख्यादा तत्र स्नात्वा विधानदः श्यामाकम्पयसा सिद्धम् भोजये द्विजसत्तमान् तस्य पापक्षयम् व्याधिपितृनाम् श्राद्धदो गदिः नभस्ये मासी कृष्णेदु तु पितृपक्षे महालये चतुर्दश्याम् तु मध्याह्ने पिण्डदो मुक्तिमाप्नुयाद ब्राह्मो दुम्परगम् गच्छेद् ब्रह्मणस्थानकं तदः तत्र ब्रह्मर्षि कुण्डेषु स्नादसोमफलं लभेद वृद्ध केदारके तीर्थे स्थाणुं दण्डिसमन्वितम् समर्च्य यत्र जाप्नोति नरोन्तर्धानमिच्छया कलश्यां च ततो गच्छेद्यत्र स्नात्वास्यामम्बिकाम् प्रार्च्य तरेत् संसारसागरं सर दृष्ट्वा देवं शैवम् पदमवाप्नोदि नरश्रद्धा समन्वितः ते स्रकोट्यस्तु तीर्थानाम् सरगे तस्मिन् सरसि यः स्मरेन्नरः पूजिता हास्पदं च तत्रैव तीर्थम् पापप्रणाशनम् यस्मिन्मुक्तिमवाप्नोति दर्शनादेवमानवः तत्र स्थानर्चयित्वा च देवान् पितृगणानपि न दुर्गतिमवाप्नोति मनसा चिन्तितम् लभेद केदारं च महातीर्थम् सर्वकल्मशनाशनम् तप्रश्नात्वा च पुरुष सर्वदानफलम् लभेद अन्यजन्मेदिविख्यातम् सरकस्य तु पूर्वतः सरो महत् स्वच्छजलम् देवौ हरिहरौ यतः विष्णुश्च दुर्भुजस्तत्र लिङ्गाकारशिव स्थितः तप्रश्नात्वा च ना ्रदे तदो गत्वा स्नात्वा चैत्रे सिदान्तके श्राद्धतो मुक्तिमाप्नोति यमलोकं न पश्यति तत स्त्रिविष्टपं गच्छेत् तीर्थं देवनिषेवितं यत्र वैतरणी पुण्या नदी पापप्रमोचिनी तत्र स्नात्वा अर्चयित्वा च शूलपाणिम् वृषध्वजम् सर्वपापविशुद्धात्मा गच्छत्येव पराङ्गतिं रसा वर्ते नरस्नात्वा सिद्धिमाप्नोत्यनुत्तमाम् चैत्रस्य सिदभूधायाम् स्नानं कृत्वा विलेपके पूजयित्वा शिवम् भक्त्या सर्वपापैः प्रमुच्यते गच्छे नरो देवि फलकीवनमुत्तमम् यत्र देवाः स गन्धर्वा स्तप्यन्ते परमम् तपः तत्र नद्याम् दृश्यद्वत्याम् नरस्नत्वा विधानदः देवान् पितृम् तर्पयित्वा ह्यग्निष्ठो मादिरात्रभक् दर्शेत्तथा विधुदिनेत् तत्र श्राद्धम् करोति यः या श्राद्धसमम् तत्र लभते फलमुत्तमम् श्राद्धे फलमरण्यस्य स्मरणम् पितृतृप्तिदम् पाणिपादे तदस्तीर्थे पितृन् सन्तर्प्यमानवः राजसूयबलम् प्राप्य साङ्ख्यम् योगम् च विन्दति ततस्तु मिश्रके तीर्थे स्नात्वा मर्त्यो विधानदः सर्वतीर्थफलं प्राप्य दभदे गदिमुत्तमं तदो व्यासवने गत्वा स्नात्वा तीर्थे मनोजवे मनीषिणं विभुं दृष्ट्वा मनस्सा चिन्तितं लभेद गत्वा मधुवनं चैव देव्यास्तीर्थे नरशुचिः स्नात्वा देवान् ऋषि निष्ठवा लभदे सिद्धिमुत्तमां कौशिकी सङ्गमे तीर्थे दृश्यद्वत्यां नरः प्लुतः नियतो नियदाहार सर्वपापैः प्रमुच्यते ततो व्यासस्थलीम् गच्छेद्यत्र व्यासेन धीमदा पुत्रशोकाभिभूतेन देहत्यागो विनिश्चितः पुनरुद्धापितो देवैस्तत्र गत्वा न शोकभाक् कि सूकूपमासाद्य तिलप्रस्थम् प्रदाप्यज गच्छेद्धि परमां सिद्धिं मृदो मुक्तिमवाप्नुयाद आह्नं च मुदिदं चैवद्वैतीर्थे भुवि विश्रुदे तयो स्नात्वा विशुद्धात्मा सूर्यलोकमवाप्नुयाद मृगमुच्यं तदो गत्वा गङ्गायां प्रणदस्थितः अर्चयित्वा महादेवमश्वमेधफलं लभेद कोडितीर्थम् ततो गत्वा स्नात्वा कोडीश्वरम् शिवम् दृष्ट्वा स्तुत्वा श्रद्धधानकोडियज्ञफलम् लभेद तदो वामनकम् गच्छेत् त्रिषु लोकेषु विश्रुतम् यत्र वामनजन्मा भूत् बलेर्यज्ञ जिहीर्षया तत्र विष्णुपदे स्नात्वा पूजयित्वा च वामनम् सर्वपापविशुद्धात्मा विष्णुलोके महीयते ज्येष्ठाश्रमम् च तत्रैव सर्वपातकनाशनम् ज्येष्ठस्य शुक्लैकादश्याम् सोपवासः परेहनि स्नात्वा तत्र विधानेन श्रेष्ठत्वम् लभते नृषु श्राद्धम् तत्र कृतम् देवि पितॄणामधितुष्टितम् तत्रैव कोडितीर्थम् च त्रिषु लोकेषु विश्रुतम् तस्मिंस्तीर्थे नरस्नत्वा कोडियज्ञफलम् लभेद तत्र कोटीश्वरम् नाम देवदेवम् महेश्वरम् समभ्यर्च्य विधानेन गाणपत्यमवाप्नुयाद सूर्यतीर्थम् च तत्रैव स्नात्वात्र रविलोकभाक कुलोक्तारणके तीर्थे गत्वा स्नानम् समाचरन् उद्धृत्य स्वकुलम् स्वर्गे कल्पान्तम् निवसेत्तदः पवनस्य हृदे स्नात्वा दृष्ट्वा देवम् महेश्वरम् विमुक्तसर्वपापेभ्य शैवम् पदमवाप्नुयाद स्नात्वा जहनुमतीर्थे नरो मुक्तिमवाक्नुयाद शालहोत्रस्य राजर्षेस्तीर्थे स्नात्वाखवर्जितः श्रीकुम्भाख्ये सरस्वत्यास्तीर्थ स्नात्वाथ यज्ञवाक् स्नातश्च नैमिषे कुण्डे स्नात्वा वेदवती तीर्थे स्त्री साधित्वमवाप्नुयाद ब्रह्मतीर्थे नर श्रत्वा ब्राह्मण्यम् लभते नरः ब्रह्मण परमम् स्नानम् यत्र नरस्नात्वा न शोचति समवाप्नुयाद सप्तसरस्वतं तीर्थं प्राप्य स्नात्वा च मुक्तिभाक् यत्र सप्तसरस्वत्यः साम्य गैक्यं समागताः सुप्रभा काञ्चनाक्षी च विशाला च मनोहरि सुनन्दा सुवेणुश्च सप्तमी विमलोदक तद्धैवौशनसे तीर्थे स्नात्वा मुच्यदपादकैः कपालमोचने स्नात्वा ब्रह्महाभिशुध्यति वैश्वामित्रे नरस्नातो ब्राह्मण्यं समवाप्नुयाद ताद्ध पृधूतके स्नात्वा मुच्यते भवबन्धनाद अवकीर्णे ब्रह्मचर्यफलं लभेद मधुस्रावेध प्रयत प्रयात स्नादो मुच्येतपादकैः स्नात्वा तीर्थे च वासिष्ठे वासिष्ठम् लोकमाप्नुयाद अरुणा सङ्गमे स्नात्वा त्रिरात्रो पोषितो नरः स्नात्वा मुक्तिमवाप्नोति नात्रकार्या विचारण समुद्रास्तत्र चत्वारस्तेषु स्नादो नरशुभे गोःसहस्रफलं दध्वा स्वर्गलोके महीयते स सोमतीर्थं च तत्रान्यतस्मिन् स्नात्वा च मोहिनी चैत्रे षष्ट्यां च शुक्लायां श्राद्धं कृत्वोद्धरेत् पितृन् अथ स्नात्वा योगमूर्तिधरम् शिवम् समभ्यर्च्य विधानेन दैवतैः सहमोददे मोददे कुरुतीर्थे तदस्नाद सर्वसिद्धिमवाप्नुयाद स्वर्गद्वारे प्लुदो मर्त्यस्वर्गलोके मधीयदे स्नादोह्य नरके तीर्थे मुच्यते सर्वकिल्बिषैः तदो गच्छे नरो देवि काम्यकं वनमुत्तमं यस्मिन् प्रविष्टमात्रस्तु मुच्यते सर्वसंचयैः आधादित्यवनं प्राप्य दर्शनदेवमुक्तिभाक् स्नानं रविदिने कृत्वा तत्र वाञ्छितमाप्नुयाद यज्ञोपवीतिगे स्नात्वा स्वधर्मफलभाग् भवेद तदश्चुप्रवाहाख्ये तीर्थे स्नात्वा नरोत्तमः सर्वतीर्थफलं प्राप्य मोददे दिविदे वद स्नादस्तीर्थे विहारे दुः सर्वसौख्यमवाप्नुयाद दुर्गातीर्थे नर स्नात्वा न दुर्गतिमवाप्नुयाद तदः सरस्वतीकूपेऽपितृतीर्थापराह्वये स्नात्वा प्राजी प्राजीसरस्वत्याम् श्राद्धम् कृत्वा विधानदः दुर्लभम् प्राप्नुयात् कामम् देहान्ते स्वर्गतिं लभेद् शुक्रतीर्थे नरस्नात्वा श्राद्धद प्रोद्धरे प्रिधृन् अष्टम्यां वा चतुर्दश्याम् चैत्रे कृष्णे विशेषदः सोपवासो ब्रह्मतीर्थे मुक्ति धाङ्नात्र संशयः स्ताणुतीर्थे तदस्नात्वा दृष्ट्वा स्थाणुवडं नरः मुच्यते पादकैर्घोरैरिति प्राक्पितामहः दर्शनास्ताणुलिङ्गस्य कुरुक्षेत्रस्य देवेशि सत्यं सत्यं कुरुक्षेत्रसमं तीर्थं न भूतं तत्र द्वादश यात्रास्तु कृत्वा भूयो न जन्मभाक पूर्तमिष्टम् तपस्तप्तम् हृदम् दत्तम् विधानदः तत्र स्यादक्षयम् सर्वमिति वेदविदो विदुः मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः महापादे च सङ्क्रान्तौ पुण्ये चाप्यन्यवासरे स्नादस्तत्र कुरुक्षेत्रे फलानन्द्यमवाप्नुयाद कलिजानां तु पापानां पावनाय महात्मनां ब्रह्मणा कल्पितं तीर्थं कुरुक्षेत्रं सुखावहं य इमां कीर्तयेत् पुण्यां कथां पापप्रणाशिनीम् शृणु याद्वा नरो भक्त्या सोऽपि पापैः प्रमुच्यते यज्ञत्र कुरुक्षेत्रे रविग्रहे तत्तदेव सदाप्नोति नरो जन्मनि जन्मनि अथ किं बहु नोक्ते न विधिजे शृणु निश्चितं सेवेदैव कुरुक्षेत्रं यदि चेद्भवमोक्षणम् एतदेव महत् पुण्यमेतदेव महत्तपः एतदेव महत् ज्ञानम् यद्व्रजे स्थाणुतीर्थकम् कुरुक्षेत्रसमम् तीर्थम् साचारो वाप्यनाचारो यत्र मुक्तिमवाप्नुयाद एतत् ते कुरुक्षेत्रस्य माहात्म्यं सर्वपापनिकृन्तनम् पुण्यदमोक्षदम् चैव किमन्योतुमिच्छसि इति श्रीबृहन्नरदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे कुरुक्षेत्रमाहात्म्ये तीर्थयात्रावर्णनम् नाम पञ्चषष्टितमोऽध्यायः इति कुरुक्षेत्रमाहात्म्यम् समाप्तम् ओम्